गणेशपुराणं क्रीडाखण्डम् अध्यायम् हण्ड्रेड् एण्ड् फिफ़्टीन् क उवाच श्रुत्वा सेनाजयं दैत्यौ ययौ चिन्तां महत्तराम् अत्यन्तंलानवदनो निमग्नो दुःखसागरे मनसा परितुष्टेन चिन्तयामा स दैत्यराट सिन्धुरुवाच विपरीतमिदं कस्माज्जातं न ज्ञायदे मया पिपीलिकाग्रस्येत् किं न ब्रह्माण्डं लोकसङ्कुलं यस्याग्रेमशखा मम शिवार्भकेन तस्याद्य कथं सेना विनिर्जिता क इत्युक्त्वा हयमारुह्य धनुर्बाणासि चर्मभृद अहत्वा तम् दर्शयिष्ये मुखम् न इत्युक्त्वा भिययौ सिन्धु भूमौ पदङ्गवद सज्जं चकार च धनुर्नादयन् गगनम् दिशः व्यसृजद्बाणजालानि तीक्ष्णान्यग्निमुखानि सः चकम्पे पृथिवी सर्वमूर्च्छिदा जन्तवोऽखिलाः प्राक्षिपदेवसेनायामसङ्ख्याताश्च पत्रिणः चिन्ना भिन्नाः सुरा पेदुस्तच्चस्त्रा खादपीडिताः पलायन्दः सुरा पेदुस्तेऽपि पृष्ठे शरैर्हताः तदसर्वा मयूरेशवाहिनी व्यग्रदामियाद द्विधा जानु जा कषाचिमस्तका अभी शरवृष्ट्याुस्तमुगैया रणमूर्धन अभवत्ल युद्धमनिवारव सिंधोस्वेशभर कोलाखले महाघोरे ध्वान्द्वे गाढे रजकृते पुरोगाम जग्निरे सर्वे परान्स्वानपि ते तदा शस्त्राकादैर्हदा सेना देवसेनाचरैः परा तदसिन्धुर्हयात्तस्मादवरुह्य पदे ग्रहीत पादयामास सहसा वीरभद्रं च वेगदः अहनन्मस्तके शोधनन्दिनं बलवत्तरं भूदराजं च खड्गेन मारयन् सहसा कटौ पुष्पदन्दस्योदरं च विभेद बिभेदबलवत्तरं शिखामाक्रम्य प्राकर्षद्भिरण्यगर्भमोजसा श्यामलस्य ललाडं स बिभेदशरखातदः चपलस्य हनूरोर्षाजखानविकटं रणे लम्बकर्णस्य कण्ठं स बिभेदबाणसञ्चयैः धृत्वादुचरणौ रक्रलोचनं च न्यपादयद अस्तान्निस्तीर्यसहसा समुखः प्रापलज्जवाद सोमं लत्ता प्रहारेण रणभूमावपातयत जठरं धारयामास भृङ्गिणोऽसि दान वन से भेदाक पचानन से पृष्ठ सो वधी चपलो युधि महवीरा निहदारणमूर्धनी द्रुद्म पलायिताे तद सिंधुपुरोय जगर्जखनवद्घोरं नादयन् भुवनत्रयं सविव्याधमयूरेशं शरजालैरनेकथा तस्य देहं समालोक्य विकरालम्भयानकं विरूपाक्षादयः सर्वे पलायनमगुर्वद मुनियुक्तो गणेशश्च यु युधे संयुगे तदा सचकम्पे करिशिषु सिंहस्येवास्य दर्शनाद् तदो ब्रवीद्रोषवशात् सिन्धुस्तम् तु गुणेश्वरम् सिन्धुरुवाच पुरुषार्थ पुरुषार्थशिवार्भक प्रत्यक्षं दृश्यशे रे त्वं जम्बूक इव दुर्बलः कथं मे सहसे मूढ तालाखादं शिलाभिदम् त्वया मादुस्तनं पीत्वा नर्तव्यं हि गृहाङ्गणे शक्रादयोजिदायेन तस्य ते गणनात्रका निवारयदि मां मूढकृपा त्वां हन्धुमुत्सुकं कथं ते कोमलाङ्गेषु विद्ये तीक्ष्णतराञ्जरान् देवा उद्वाच किमर्थं वल्गसे मूढभावे नावतारं गृहीष्येहं यदि जानेऽल्पकं वपुः तवेदानीं हनिष्यामि क्षणेन देहमल्पकं सूर्यदत्ताद्वराद्दुष्टदुष्कर्मनिरतो भवान् इदानीं स गधकालो मृत्युकाल उपस्थिते वल्गना कुशलस्त्वं किं युद्धमध्यकरिष्यसि त्वाकन्तुं मोचितुं देवान्धृतं रूपमिदं मया अन्धकाले सन्निहिदे पुरुषार्थो वृथा भवेद् मया कदे महास्थानं मम दुर्लभं सिन्धुरुवाच यावन्न चेत्मि ते कोमलं देहमुत्तमं तावद्वल्गसि यो यस्य भक्तः स्यात् स मृतो व्रजेत् तस्य लोकं वृद्धाहित्वं न प्रशंसां वदात्मनः क यवमुक्त्वा महा परभेदिनं न कदाचित् प्रकटितमतितीक्ष्णं जयावहम् स्मृत्वा सूर्यम् धनुगृह्य सज्जं कृत्वा न्ययोजयत टणत्कारेण धनुशोनादिदम्भुवनत्रयं मुमोचबाणं तं देवे मयूरेशे बलात्कलः स जज्वालदिश सर्वा गगनं विदिशोऽपि च तं दृष्ट्वा स मयूरेशस्तत्याज वज्रात्सारतरं सर्ववैरिदर्पहरं परम् अधहत्सोऽपित्रीं लोकान् प्रलयानलसन्निभः परशुखण्डयामास नभस्येव चदं शरम् धरायाम्पात्यशदधा दैत्यहस्तमधा चिनद धनुर्भारसहङ्कोरम् नभस्यैव गदम् कराद तदक्रोधेन दैत्यस्य स तत्याज शत्रवे शतभूदेव तच्छब्दम् चकार गर्जयन् दिशः दृष्ट्वा तत्र मयूरेश्य शूलमुग्रम् मुमोचः ददाह भुवनम् तच्च पपाददैत्यमस्तके मुकुदम् कुण्डले कर्णौ खण्डयित्वा यययौ पुनः मयूरे शकरं शीघ्रं यथा नत्याजिदं तथा तद दुवाचैनं चिन्नकर्णो महासुरः पौरुषं दर्शितं तेद्य दर्शयिष्येत्तवापि च इदानीं शरखादेन चिनत्मि नासिकां तव इत्युक्त्वा खड्गहस्तोसौ तं जगामगुणेश्वरं मयूरेशस्तदा चक्रे नानारूपाणि सर्वतः आयुधानि चत्वारि बिभ्रन्करचतुष्टये ततः स विस्मयाविष्ठो दशदिक्षव्यलोकयत ददशतत्र तं देवं चतुरायुधभूषितं ततः सलज्जिदो निजं गन्तुं मनोदधे दधे तथापि पुरदो पश्यन्मयूरेशं तथाविधम् आच्छाद्यनेत्रे सययौ हृद्येनं समलोकयन् उन्मील्यनेत्रे सोपश्यत्पुर एनं शिखण्डिनि तदो दैत्यो बुबोधैनं स्वान्दे रविप्रसादला तत्पुरीं याद आच्छाद्य आच्छाद्यवदनाम्बुजं हदशेषैश्च वीरैश्च तादृशाय परिवारिताः पर्यङ्गेऽन्यपदचिन्ता पर्याकुलितमानसः विरास्ते स्वगृहयाताश्चिन्ता व्याकुलचेदसः इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुवैरूप्यकरणं नाम पंचदतम ओ